अथ एकषष्टम् दशकम् ततश्च वृन्दावनतोऽतिदूरतो वनम् गतस्त्वम् खलु गोपगोकुलैः हृदन्तरे भक्ततरद्विजाङ्गना कदम्बकानुग्रहणाग्रहम् वहन् ततो निरीक्ष्या शरणे वनान्तरे किशोरलोकम् क्षुधितम् तृषाकुलम् अदूरतो यज्ञपरान् प्रति व्यसर्जयो दीदिवियाचनायतान् गतेष्वथोतेष्वभिधायतेऽभिधाम् कुमारकेष्वोदन याचिषु प्रभो श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिम् न किञ्चिदूचुश्च मही सुरोत्तमाः अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदम् हि चिरादभक्ताः खलुते ते मही सुराः कथम् हि भक्तम् त्वयितैः समर्प्यते निवेदय ध्वम् गृहिणी जना यमम् दिशेयुरन्नम् करुणाकुला इमाः इति स्मितार्द्रम् भवते रिता गतास्ते दारकादारजनम् ययाचिरे गृहीतनाम् नियि सम्भ्रमाकुलाश्चतुर्विधम् भोज्यरसम् प्रगृह्यताः चिरम् धृत त्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तुर्नमाययुः विलोल पिञ्छिकुरे कपोलयोः समुल्लसत् कुण्डलमर्द्रमीक्षिते निधाय ससीमनि स्थितम् भवन्तम् समलोकयन्तताः तदा च काचित्त्वदुपागमोद्यता गृहीत हस्तादयितेन यज्वना तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेशकैवल्यमहो कृतिन्यसौ आदाय भोज्याननुगृह्यताः पुनस्त्वदङ्ग सङ्गस्पृह योज्यतिर्गृहम् विलोक्य यर्जय निम्चर्तृन पिता स्वगर्हणन निरूप्य दोष निज मंगना जने विलोक्य भक्ति पुनर्विचारि प्रबुद्ध तत्वस्विष्टु्विजयमुपुराधीश निरुधि गेकष्टम दशक